नापति एवत् दशकम् उरलिल् कटुपडल् एकदादति विमातकारिणीम् मातरम् समुपसेदिवान् भवान् स्तन्यलोलुपतया निवारयन् अङ्कमेत्य पपिवान् पयोदरो स्निग्धहासमतुराननाम्बुजे दुःखमीशदहने परिश्रुतम् धर्तुमाश्रुजननी जगामते सामि पीतरसबङ्कसङ्गत हन्द देवदति भाजनम् त्वया उच्चलत्वनितमुच्चकैस्तदा सन्निशम् यजननी समादृता सत्यशो विसरवदतर्शसा सत्य एव दधि विश्रुदम् चितो वेदमार्गपरिमार्गितम् ऋषा मवीक्ष्य परिमार्गयन्त्यसौ सन्ददश सुकृतिन्युलूकले दीयमाननवनीतमोतवे त्वाम् प्रगृह्य बत भीति भावना रोष रोषितमुकीसखी पुरो बन्तनाय रसनामुपाददे भन्तुमिच्छति यमेव सज्जन त्वम् भवन्तमयि बन्तुमिच्छति सा रसना गुणान् बहून् त्वयङ्गुलो नमखिलम् गिलैक्षताम् विस्मितोत्स्मितसखी जनेषिताम् स्विन्नसन्नवपुषम् निरीक्षताम् नित्यमुक्तवपुरप्यहोहरे बन्तमेव कृपयान्वमन्यताम् स्थीयताम् शिरमुलूकले त्यागता भवनमेव सायता प्रागुलूकलबिलान्तरे तदा सर्पिरर्पितमदन्नवस्थिता यद्यपाशसुखमो विभो भवान् संयत किमु वातनात दिवैरिष्ठ वातनाकिंग